श्रीहरये नमः अत द्वितीयोऽध्यायः श्रीशुक उवाच एवं पुरा धारणयात्मयोनेर्नष्टां स्मृतिं तथा ससर्जेतम् अमोघदृष्टेर्यदाप्यतात् प्राग् व्यवसाय बुद्धिः शाब्दस्य हि ब्रह्मण एष पन्ता यन्नामभिध्यातिधीरपार्थैः परिभ्रमंस्त तत्र न विन्दते अर्थान् मायामयेवासनयासयानः अथ कविर्नामसो यावदर्थ स्यात् अप्रमत्तो व्यवसाय बुद्धेर्सिद्धेन् यथार्थेन यते तत्र परिश्रमं तत्र समीक्षमाणः सत्यांशिथौ किं कसिपो प्रयासैर्भाकौ स्वसिद्धे ह्युबर्हणैः किं सद्यञ्जलौ किं वल्गलाधौ सति किं दुकुलैः दिशंति किं पति न सन्ति रुद्धा नैवाङ्गृपा किमजितो सूक्ष्यन् रुदुहा किमजितोपतिनोपसन्तान् कस्माद्भजन्ति कवयोधनुधुर्मधान् एवं स्वचित्ते स्वत एव आत्मा प्रियोर्थो भगवानन्तः तं निर्वृतो नियथार्थो भजेत संसारहेतोपरमश्च यत्र कस्तां त्वनाधृत्य परानुचिन्ताम् ऋते पशू नाम सतिं नामयुज्यत् पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान् परिताभाञ्जुषाणां केचित्स्वतेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तं च दुर्भुजं कञ्जरदाङ्कशङ्ख गताधरं धारणया स्मरन्ति प्रसन्नवक्त्रं नलिनायते क्षणं कदम्बकिञ्जल्गभिशङ्घवाससं लसन्महारत्नकिरण्मयाङ्गतं स्फुरन्महारत्नकिरीटकुण्डलम् उन्निद्रहृत्पङ्गजकर्णिकालये योगेश्वरास्थापितपल्लवम् श्रीलक्ष्मणं कौस्तु भरत्नकन्धरम् अम्लानलक्ष्म्या वनमालयाचितम् विभुक्षितं मे स्निग्धामलाकुञ्चितनीलकुन्तलैर्विरोचमाना ननहासपेशलम् अतीनलीला हसितेशनोल्लसद् भ्रूभङ्गसं सूचितभूर्यनुग्रहम् ईक्षेतचिन्तामयमेनमीश्वरं यावन्मनोधारणयावतिष्ठते एकैकशोऽघानि धिया अनुभावयेत् पाधायावत् हसितं गताभृतः जितं जितं स्थानम् अभोक्य धारयेद् परं परं शोध्यति धीर्यथा यथा यावन्न जायेत विश्वेश्वरे द्रष्टरिभक्तियोगः तावस्तवीयः पुरुषस्य रूपं क्रियावसाने प्रयत स्मरेत स्थिरं सुखं सासनमाश्रितो यतेर्यधा जिहासो इममङ्गलोकं काले च देशे च चा मनो न सज्जयेत् प्राणान् मनसा जितासूः मनस्वबुद्ध्या अमलयानियम्य क्षेत्रज्ञयेतां निनयेत्तमात्मनि आत्मन्य आत्मन्यवरुध्यधीरो लब्धोपशान्तेर्विरमेतकृत्या न यत्र कालो निमिषां परः प्रभुः कुतो नु देवा जगतां ययिषिरे न यत्र सत्वं न रजस्तमश्च न न महान् प्रधानं परं पदं वैष्णवमामनन्ति तत्यन्नेति नेति यतत्तुस्तिश्रुक्षवः विसृज्य धौराज्ञ्यम् अनन्यसौहृदः हृदो बगुह्यार्ह पदं पदे वधे इत्थं मुनिस्थोपरमेऽप्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः स्वपार्ष्णिना पीड्य कृतं ततो निलं स्थानेषु षट्सुन्नमयेजितक्लमः नाभ्यां स्थितं हृद्यधिरोऽभ्यतस्मात् उदानगत्यो रसितं नयेन्मुनिः ततोनुसन्धाय धिया मनस्वी स्वथालुमूलं सनकैर्नयेत् तस्माद्भ्रुवोरन्तरमुन्नयेत् निरुद्धसप्तायतनो न पेषः स्थित्वा मुहूर्तार्धं मुकुण्ठदृष्टिर्निर्भिद्यमूर्तन् विसृजेत्परं गतः यदि प्रयाश्यन्नृपारमेष्ट्यं वैहाय सानामुदयद्विहारम् अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च योगीश्वराणां गतिमाहुरन्तर्भगिस्त्रिलोक्या भवनान्तरात्मनां न कर्मभिस्तां गतिमाप्नुवन्ति विद्या तभो योग समाधिभाजा वैश्वानरं याति विहाय सा गथ सूक्ष् न या ब्रह्मपदेन शोचिषां विधूतकल्कूत हरेरुदस्ताद् प्रयादि चक्रं सुमारं तद्विश्वनाभिं त्वदिवर्त्य विष्णोर् अणीयसा विरजनात्मनैकः नमस्कृतं ब्रह्मवितामुपैति कल्पायुषो यत् विबुधारमन्ते अतो अनन्तस्य मुकानलेन दद्दह्यमानं सनिरीश्य विश्वं निर्यादिसिद्धेश्वरजुष्टतिष्ण्यं यद्वैपराध्यं तदुपारमेष्ट्यम् न यत्र शोको न जरा न मृत्योर्नार्तिर्नशोध्वे करुते कुतश्चेत् यच्चित्तधोत कृपया निधंविदां दुरन्तदुःखः प्रभवानुदर्शनात् ततो विशेषं प्रतिबध्य निर्भय स्तेनात्मनापो नलमूर्तिरत्वरन् ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मनाखं बृहत् आत्मलिङ्गं घ्राणेन गन्धं रसनेन वैरसं रूपं तु दृष्ट्या स्वसनं त्वचैव श्रोद्रेण शोपेत्य न भो गुणत्वं प्राणेन शाहूतिमुपैति योगी सभूतसूक्ष्मेन्द्रियसन्ति मनोमयं देवमयं विकार्यम् संसाध्यगद्या सकते न याति विज्ञानतत्त्वं गुणसन्निरोधं तेनात्मनात्मानमुभैति शान्तम् आनन्दमानन्दमयोऽवसाने एतां गतिं भगवतीं गतो स वै पुनर्नेहविषज्जेङ्घ एते श्रुतीने नृपवेदगीते त्वया बिभृष्टेः सनातने च ये वै ब्रह्मण आहभृष्ट आराधितो भगवान् वासुदेवः न यदोन्यशिवः पन्ता वासुदेव भगवते भक्तियोगो यथो भवेत् भगवान् ब्रह्मकार्त्स्न्येन त्रिरन्वीक्ष मनीषयाम् तदत्यवस्यत्कूटस्थोरधिरात्मन् यतो भवेत् भगवान् सर्वभूतेषु लक्षितस्वात्मना हरिः दृश्यैर्बुद्ध्यादिभिर्दृष्टा लक्षणैरनुमापकैः तस्मात् सर्वात्मना राजन्हरि सर्वत्र सर्वदा श्रोतव्यकीर्तितव्यश्च स्मर्धव्यो भगवान् नृडां पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतं पुनन्ति देविषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् इति श्रीमद्भागवते महापुराणे द्वितीयस्कन्ते पुरुषसंस्थावर्णनं नाम द्वितया सर्वत्र गोपिका जीवन स्मरण गोविंद गो सद्गुरु सद्गुमहराज की जय